श्रीगुरुभ्यो नमः श्रीगणपतये नमः अथ महान्यासविधिः शिखादि अस्त्रान्तम् अंगन्यासः या ते रुद्रशिवा तनोरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः शिखायै नमः अस्मिन् महत्यर्णवेन्तरिक्षे भवाधि तेषाकं सहस्रयो जने वधन्वानि शिरसे नमः सहस्राणि सहस्रशोये रुद्रा अधिभूम्याम् तेषागुम्सहस्रयो जने वधन्वानि तन्मसि ललाटाय नमः अगुंसशुचिषद्वसुरन्तरिक्षसद्धोतावे दिशदतिथिर्दुरोऽणसत् नृषद्वरसदृतसद्व्योमसदब्जा गोजाहृतजा अद्रिजाहृतम् बृहत् भ्रूमध्याय नमः त्र्यम्बकैयजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् नेत्राभ्या नमः नमस्रुत्याय चथ्याय चर्णा नम मनस्तूतन ये मन आयुषिमो गोशु मनो अश्वे शुरीश वीरान्मो रुद्रभा वधर्हविस्मो नम सा विधेमते नासी का नम अवतत्य अवत्यधनुस्व सहस्राक्षुशल्या मुखा शिवो न सुमना मुखाय नम कंठा आश्र्वा अध क्षमा चरा गुंसहस्रोजने वधनवा तन्मसी कंठाय नम नेललग्रेवाश्रिति कंठादिवगुं रुद्रा उपश्रिता तेक सहस्रयोजने वधन्वा तन्मसी उपकंठा नम नमस्ते अस्वायु नातताय धृष्ण उभ्यात नमो बाहुभ्या बधन बहु याते या ते हेतिमस्ते बभूव ते धनु तयास्मातस्वयुज उपबाभ्या नम ये तीर्थन प्रचरती सृकाव निषंगिण तं सहस्र जधनवा तन्मसी हस्ता नम सद्यो जातं प्रपद्यामि सद्यो वै नमो नमः भवे भवेनाति भवे भव भवोद्भवाय नमः अङ्गुष्ठाभ्यां नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमःकालाय नमः नमकाला कलविकरणाय नमो बल विक नमो बलाय नमो बल प्रमथनाय नमसूतदमनाय नमो मनोन्मनाय नम तर्जने नम अघोरे एभ्योथ घोरे एभ्यो घोरघोर तेरेभ्य सर्वे एभ्यः नमस्ते अस्तु रुद्ररूपेभ्यः मध्यमाभ्या नमः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् अनामिकाभ्या नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम् कनिष्ठिकाभ्यां नमः नमो भक्किरिकेभ्यो देवानागम् हृदयाय नमः नमो गणेभ्यो गणपतिभ्यश्च वो नमः पृष्ठाय नमः नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः कक्षाभ्यां नमः नमो हिरण्यबाहवेशे दिशाञ्च पतये नमः पार्श्वाभ्यां नमः विद्यन्धनुक्कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गथिः जठराय सदाधार पृथिवींद मुतेमा कस्मै देवाय विषा विधेम नाभ्य नम मेढ़िव तम शिव न सुमना परुधन्धा कृतिम वसा न आचर पिना कंबिभ्रदा ये भूतानामधिपतयो विशिकासः कपर्दिनः तेषाकं सहस्रयो जने वधन्वानि तन्मसि गुह्याय नमः ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् तेषाकं सहस्रयो जने तन्मसि अण्डाभ्या नमः स शिरा जातवेदाः अक्षरम् परमं पदम् वेदा नागं शिरवोत्तमम् जातवेदसे शिरसि माता ब्रह्मभूर्भुवस्सुवरोम् अपानाय नमः मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानोवदेः पितरं मोतमातरं प्रियामानस्तनुवो रुद्ररीरिषः पूरुभ्यान्नमः एष रुद्र ते रुद्रभागस्तञ्जुषस्वते न वसेन परो मोजवतो तेह्यवततत धन्वा पिनाकहस्तः कृत्तिवासाः जानुभ्यान्नमः सघं सृष्टि सो मपहुुश्यो ओर्ध प्रतिता बृहस्पते परदीयार नक्षोह मित्रगपन जंघाभ्या नम विश्वं भूतं भुवनञ्चित्रं बहुधा जातं जायमानञ्च यत् सर्वोशेषरुद्रस्तस्मै रुद्राय नमोऽस्तु गुल्फाभ्यां नमः ए पथां पथिरक्षय ऐलमृदा युधः तेषाकं सहस्रयो जने वधन्वानि तन्मसि पादाभ्यान्नमः अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहे गश्च सर्वा आञ्जम्भयं सर्वा आश्च यातो धान्यः कवचाय नमः नमो बिलने कवचिने उपकवचाय नमः नमो सहस्राक्षाय मेढुषे अथो ये अो हंते नम तृतीय नेत्रय नम मुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् याश्च ते हस्त इष वः पराता भगवो वप अस्त्राय नमः य एतावन्तश्च भूयागंसश्च दिशो रुद्रावितस्थिरे तेषागम् सहस्रयोजने जने वधन्वानि दिग्बन्धाय नमः अथमूर्धादिपादान्तं दशाङ्गन्यासः ओ नमो भगवते रुद्रा ओं मूर्धे नम नम निकाए नम लटा नम भूखा नम गठा नम वृदयाय नम ते दक्षिणस्ताय नम रुं वामहस्ताय नमः द्राम्नाभ्यै नमः यं नमः अथ पादादिमूर्धान्तं पञ्चाङ्गन्यासः ॐ सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनाति भवे भव भवोद्भवाय नमः पादाभ्यान्नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालायनमक्कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ऊरुमध्याभ्यां नमः अघोरे एभ्योऽधोरे घोरघोरतरेभ्यः एभ्यो सर्वे एभ्यः एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः हृदयाय नमः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् मुखाय नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो मूर्ध्ने नमः अस्य श्रीहंस गायत्रीस्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्मर्षिः अव्यक्तगायत्रीच्छन्दः परमहंसो देवता हंसां बीजं हंसीं शक्तिः हंसों कीलकम् परमहंसप्रसादसिद्ध्यर्थे जपे विनियोगः हंसाम् अङ्गुष्ठाभ्या नमः हंसीं तर्जनेभ्या नमः हंसों मध्यमाभ्यां नमः हंसैं अनामिकाभ्यां नमः हंसों कनिष्ठिकाभ्यान्न हंसः करतलकरपृष्ठाभ्यां नमः हंसामृदयाय नमः हंसीं शिरसे स्वाहा हंसों शिखायै वषट् हंसैं कवचाय हुं हंसौं नेत्रत्रयाय वौषट् हंसः अस्त्राय फट् भूर्भुवत्सु वरोमिति दिग्बन्धः गमागमस्थं गमनादिशून्यम् चिद्रोपदीपं तिमिरापहारम् पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् हंसोऽहंसः परमहंसः हंसः सोऽहंसोऽहं हंसः हंसहंसाय विद्महे परमहंसाय धीमहि तन्नोऽहंसः प्रचोदयात् अथ दिक्सम्पुटन्यासः सुवरो ॐ त्रातारमिन्द्रमवितारमिन्द्रगम् हवे हवे सुहवगं शूरमिन्द्रम् हुवे पूर्वदिग्भागे ललाटस्थाने च इन्द्राय नमः ॐ भूर्भुवः सु नम् त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो वयासि सेष्ठाः यदिष्ठो वह्नितमशोशुचानो विश्वा द्वेषागुंसि प्रमुग्ध्यस्मत् नम् आग्नेय दिग्भागे नेत्रस्थाने च अग्नये नमः ॐ भूर्भुवः सुवरोम् ॐ सुगन्नः पन्थामभयङ्कृणोतु यस्मिन्नक्षत्रे यमयेति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रगम् हविषायजाम ॐ दक्षिणदिग्भागे कर्णस्थाने चय माय नमः ॐ भूर्भुवः सुवरोम् भम् असुन्वन्तमयजमानमिच्छस्तेन स्येत्याम् तस्करस्यान्वेषी अन्यमस्मदिच्छसात इत्या नमो देवि निरृते तुभ्यमस्तु भं निरृति दिग्भागे मुखस्थाने च निरृतये नमः ॐ भूर्भुवः सुवरों गं तत्त्वाया मे ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोध्यऋषगं समान आयुः प्रमोषीः गम् पश्चिमदिग्भागे बाहुस्थाने च वरुणाय नमः ॐ भूर्भुवत्सु वरो वम् सहस्रिणिभिरुपयाहि यज्ञं वायो अस्मिन् हविषिमादयस्व योयं पात स्वस्तिभिः सदा वं वायव्यदिग्भागे नासिकास्थाने च वायवे नमः ॐ भूर्भुवः तें वयगं सोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमही ते उत्तरदिग्भागे हृदयस्थाने च सोमाय नमः ॐ भूर्भुवः रुं तमेषानञ्जगतस्तस्थुषस्पतिन्धियञ्जिन्वमवसे होमहे वयं पूषानो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धस्वस्तये ऋं ईशानदिग्भागेनाभिस्थाने ईशानाय नमः ॐ भूर्भुवत्सु वरो द्राम् अस्मे रुद्रामेहना पर्वतासो वृत्रहत्ते भरहूतौ सजोषाः यश्यगम् सतेस्तुवते स्तुवते धायि पज्र इन्द्र ज्येष्ठा देवाः द्राम् ऊर्ध्वदिग्भागे मूर्ध्वस्थाने ब्रह्मणे नमः ॐ भूर्भुवः सुवरोम् यं स्योनापृथिविभवानृक्षरानिवेशनी यच्छानः शर्म सप्रथाः यम् अधो पादस्थाने विष्णवे नमः ॐ विभो रसिप्रवाहणो रौद्रेणानिकेन पाहि मा आग्ने पिप्रहि माहिगंसिहि मा मा शिखायै नमः ॐ वह्निरसि हव्यवाहनो आग्ने पिप्रहि माहिगंसीः मा मा शिरसे नमः ॐ श्वात्रोऽसि प्रचेता रौद्रेणानिकेन पाहि मा प्रहि माहि गंसीहि नमः ॐ तुथोऽसि विश्ववेदारौद्रेणानिकेन पाहि मा आग्ने पिप्रहि मा माहिगंसीः ललाटाय नमः ॐ उषिगसि कबीरौद्रेणानिकेन पाहि मा, मा, मा आग्ने पिप्रहि मा माहि गंसी नेत्राभ्यां नमः ॐ अङ्गारिरसिबंभारी रौद्रेणानिकेन पाहि मा आग्ने पिपृहि मा मा माहि नमः ॐ अवस्युरसिदुवस्वान् रौद्रेणानिकेन पाहि मा आग्नेपिहि माहि गंसीहि मुखाय नमः ॐ शुन्ध्यो रसि मार्जालीयो रौद्रेणानिकेन माहि गंसी कण्ठाय नमः ॐ सम्राडसि कृशानो रौद्रेणानिकेन पाहि मा आग्नेपिपृहि माहि गंसीहि नमः ॐ परिषद्योऽसि पवमानो रौद्रेणानिकेन पाहि मा आग्नेपि प्रहि माहि गंसीहि हृदयाय नमः ॐ पृथक्वासिनभस्वान् रौद्रेणानिकेन पाहि मा आग्नेपिहि माहि गंसी नाभ्ये नमः ॐ असंमृष्टोऽसि हव्यसूदो रौद्रेणानिकेन पाहि मा आग्नेऽपि बप्रहि नमः ॐ रतधा मा शिसुवर्ज्योतिरौद्रेणानिकेन पाहि मा आग्नेपि प्रहि माहि गंसीहि ऊरुभ्या नमः ॐ ब्रह्म ज्योतिरसिसुवर्धा मा, मा, मा आग्नेपि प्रहि मामा माहि गंसी जानुभ्यां नमः ॐ अजोस्येकपाद्रौद्रेणानिकेन पाहि मा आग्ने पिपृहि माहि गंसीहिं जङ्घाभ्यां नमः ॐ अहिरसि बुद्ध्नियो रौद्रेणानिकेन पाहि मा आग्नेऽपि प्रहि माहि मा मा गंसीः पादाभ्या नमः त्वगस्थिगतेः सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति ततो भूत प्रेत भूतप्रेतपिशाच ब्रह्म शाकिनी डाकिनी सर्पश्वापदतस्करज्वराद्युपद्रव उपघाताः सर्वे ज्वलन्तम् पश्यन्तु मागम् रक्षन्तु यजमानगम् रक्षन्तु अथ गुह्यादिमस्तकान्तं षडङ्गन्या सह ॐ मनोज्योतिर्जुषतामाज्यम् विच्छिन्नै यज्ञगम् समिमम् दधातु बृहस्पतिस्तनुतामिमन्नो विश्वे देवा इह गुह्याय नमः ओम साम प्रतिधेनुमती मुषा सं जिवाइव प्रवया मुज्जिहा प्रभा नव सिस्रते नकम्छा ना नाभ्ये नम अमूर्ध दिवकुत्तिपृिव्या अयम अपागं रेतागंसि जिन्वते हृदयाय नमः मूर्धानन्दवो अरतिं पृथिव्या वै ईश्वानरमृताय जातमग्निम् कविं सम्राजमतिथिञ्जनानामासन्नापात्रम् जनयन्त देवाः कण्ठाय नमः मर्माणि ते वर्मभिच्छादयामि सोमस्त्वा राजामृते नाभिवस्ताम् उरोर्वरे यो वरे शम् प्रजाभ्यो यजमानाय लोकं ऊर्जम् पुष्टिम् दददभ्याववृत्स्व शिरसे नमः अथ ब्रह्मात्मन्नित्यनुवाकः ॐ ब्रह्मा आत्मन्वदसृजत तदकामयता समात्मनापद्येयेते आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगम् होतः प्रत्यशृणोत् स दश होतो भवत् दशहूतो ह वैनामैषः तम् वा एतम् दशहूतगम् सन्तम् दश होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि तस्मै सप्तमगम् होतः प्रत्यशृणोत् स सप्त होतो तं वा एतगुं सप्त होतगं सन्तम् सप्त होतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्टघं होतः प्रत्यशृणोत् स षड्ढूतोभवत् षड्ढूतो हवैनामैषः तं वा एतगं षड्ढोतगं सन्तम् षड्ढोतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः